ष्यामिर्भवतु मे सदा श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादाः नमो नमः पुनः एकवारं सर्वेषां स्वागतम् अद्य दिने गतसप्ताहे वयम् शब्दस्य प्रयोगः अनन्तरं त्वा प्रत्यय लय तस्मिन् विषये अध्ययनं कृतवन्तः इदानीं तस्य एव अध्ययनं वयं कुर्मः किञ्चित् पुनरावर्तनम् इति रूपेण <coughs> जालपुटे यद्दत्तमस्ति तस्य अपि पठनं वयं कुर्मः अनन्तरम् अन्तिमे कथा अस्माकं कथा तु भवेदेव कथायाः पठनमपि वयं कुर्मः तत्र क्त्वा प्रत्यय लप्प्रत्यय प्रत्यय कदा भविष्यति तत्र एका क्रिया अस्ति द्वितीया क्रिया अपि अस्ति पूर्वकालिकक्रिया दर्शयितुं धातोः त्वाप्रत्ययान्तरूपं प्रचलितम् कथं पूर्वकालिकक्रिया इत्युक्ते सः नमो नमः नमो नमः जयन्ति भगिनी श्रीवत्समहोदय नमो नमः स्वागतम् एकः मनुष्य पठनं करोति नमो नमः पठनं करोति अनन्तरं कुत्र गच्छत् पठ पठनं कृत्वा पठनं करोति अनन्तरं गच्छति सः पठित्वा तत्र गच्छति सः पठित्वा तत्र गच्छति इत्युक्ते पठनस्य क्रिया पूर्वकालिकक्रिया पूर्वकालिकक्रिया दर्शयितुं त्वा प्रत्यये पठ् इति धातु तत्र क्त्वा प्रत्ययस्य रूपं क वस्तुतः तत्र प्रत्यये क इति अस्ति परन्तु ककारस्य इत्संज्ञा भूत्वा इत्युक्ते क तत्र अपगच्छति पथ त्वा अनन्तरं तत्र कानिचन सूत्राणि अस्ति इडागम इकार तत्र अस्ति खलु धातोः त्वाप्रत्यय द्वयोः धातु त, त्वा प्रत्ययद्वयमध्ये यत् इकार अस्ति तत् इडागम इति नाम्ना ज्ञायते तत्र पठित्वा सः पठित्वा तत्र गच्छति एतादृशी हन् धातोः कृते हत्वा गमधातोः कृते गत्वा एतादृशानि रूपाणि तत्र सन्ति अनन्तरं वयं दृष्टवन्तः इत्युक्ते किम् त्वा प्रत्यय लेप् प्रत्यय द्वयोः कृते अर्थभेदः तु नास्ति एका पूर्वकालिकक्रिया अनन्तरं द्वितीया परन्तु यदा धातु उपसर्गसहित उपसर्ग उपसर्गसहित आगछति तदा किंती यु उपसर्गसहित आगछति तदा प्रत्यय प्रत्यय अस्त लिखा कि गकार अभी अवगछति तत् यस्ती उदाहरणार्थं तत्र दा इति धातु दाइस् गिव, गिव् रैट् दादाने तत्र त्वाप्रत्ययान्तरूपं भवति चेत् दात्वा इति भवति दात्वा परन्तु यदा अहम् उपसर्गपूर्वकदाधातु उदाहरणार्थम् आङ् इति आङ् योगे आङ् आ इति उपसर्ग आ उपसर्ग दाधातु इति योजयामि चेत् कथं भवति आदाय आदत्व इति नास्ति किं भवति आदात्वा इति अपि नास्ति उपसर्गः आगच्छति चेत् लय आदाय अस्तु एतादृशानि तत्र रूपाणि सन्ति तत्र वयं दृष्टवन्तः उदाहरणार्थं क्रूधातु अस्ति चेत् कृत्वा इति भवति उपसर्गसहित क्रूधातु भवेत् चेत् किं भवति उपकृत्य उप उपसर्ग यदि भवति उपकृत्य इति रूपम् आगच्छति तथैव अहम् इदानीं किञ्चित् पुनरावर्तनं रूपेण किञ्चित् पृच्छामि एकनिमिषं के के सन्ति अत्र जनाः एकवारं दृष्ट्वा जयन्ति भगिनी क्षम्यतां जयन्ति भगिनी आं बेनि आं जि इति धातु अस्ति तस्य त्वा प्रत्ययान्त लेप् प्रत्ययन्त परा इति उपसर्ग स्वीकृत्य लेप् प्रत्ययान्त त्वाप्रत्ययन्त वदति वा जि त्वा पराजय् प्रत्यये कथं भवति लेप् प्रा उपसर्गं किम् उक्तवती परा परा इति परा इत्युक्ते परा, परा, परा, परा, इत, परा परा परा पराजय परन्तु ल्यप्प्रत्यन्तरूपं कथं भवति अनुमानेन अपि वक्तुं शक्नोति भगिनी दोषा सञ्चित् चिन्ता मास्तु अनुमानं कृत्वा अपि वक्तुं शक्नोति पराः अस्ति चेत् तत्र um, जी धातु um, अस्ति अस्माभिः लेक् प्रत्यय योजनीयम् कथं भवति परा... वा पराजित्य इति अस्ति परा... पराजित्य तत् अभ्यासेन एव सिध्यते तत्र सूत्राणि सन्ति परन्तु अस्माकं स्पोकन् संस्कृतमध्ये तस्य सूत्राणाम् अध्ययनं नास्ति अभ्यासेन पराजित्य अस्तु तदा अहम् एकम् इतोपि एकम् उक्तवती तत्र अर्थदृष्ट्या तत्र भेदः वर्तुं शक्नोति हा अर्थदृष्ट्या इत्युक्ते तत्र पश्यन्तु गमधातु गमधातु कृते इदानीं वदतु त्वा अनन्तरम् आ उपसर्गत्य गत्वा गत्वा आगत्य आ उपसर्गपूर्वकम् आगत्य उपसर्गः यदा भवति तदा एव ल्यप्रत्ययः ल्यप्रत्ययः भवति आगत्य तत्र गत्वा इत्युक्ते गत्वा शब्दस्य अर्थः आ, गत्वा एककार्यं पूर्वकार्यं समाप्तं न भवति तदनन्तरम् उत्तरकार्यमपि भवति गत्वा किमपि कार्यं करोमि इति सम्यक् इत्युक्ते आफ्टर् गोयिङ्ग् इति वक्तुं शक्नोमि आङ्ग्लभाषा आफ्टर् गोयिङ्ग् परन्तु आगत्य विषये आगत्यविषये समानः वा अर्थ वा न बेहिनी आगत्य इति इत्युक्ते आफ्टर् कमिङ्ग् कदा कदा उपसर्ग योजन त्र अथदृष्ट भेद अभी भर्ती अस्त तदाइप भगिनी हाँ इध क्रीध्य त्री अगर विपसर्ग कर्थसमन व टु सेल् कृत्वा इस्टु बै आफ्टर् बैङ्ग् आफ्टर् बैङ्ग् इति अस्तु सम्यक् इदानीं तत्र कदा कदा किं भवति सर्वेषु स्थलेषु तत्र अर्थपरिवर्तनं भवति इति न सर्वेषु स्थलेषु तत् नास्ति परन्तु उदाहरणार्थम् इतोपि एकम् उदाहरणं दृश्य धातु स्वीकरोतु दृश् दृश् दृष्ट्वा सम्यक् प्रदर्श्य प्रदर्श्य और् दर्शि दर्श दर्शय हा स समोपसर्ग सन्दृश्य सन्दृश्य और् प्रदर्श्य प्रदर्श्य सम्यक् सम्यक् सम्यक् तथा तथा तदा किं भवति तत्र अर्थभेदः सूक्ष्मतया तत्र अर्थभेदः अस्ति परन्तु विपरीत अर्थः भवति इति स्थितिः नास्ति एवं खलु इतोपि ग्रहधातुं स्वीकरोतु गृह गृह गृह मीन्स् टु दोम् हौस् वा नीत्वा परिगृह्य परिगृह्य सङ्गृह्य एवं इदानीं परिगृह्य परिगृह्य इष्टु परि इष्टु सरौण्डिङ्ग् अण्ड् आल् सो तत्र ओल्ड् इति एव अर्थः अस्ति परन्तु किञ्चित् भेद सङ्गृह्य यद् वदामः चेत् इस् टु कलेक्ट् टु गेदर् टु कलेक्ट् एवमस्ति अस्तु इदानीं तत्र इतोपि स्था धातोः विषये वदतु भगिनी स्था स्थित्वा Hmm. इत्युक्ते ऐ मीन् स्टाण्डिङ्ग् आफ्टर् स्टाण्डिङ्ग् सम्यक् स्थित्वा स्थित्वा तत्र एव स्थित्वा तत्र एव स्थित्वा अस्तु हा सम् एवम् अस्ति इदानीं जालपुटतः अपि वयम् अभ्यासं कुर्मः परन्तु तस्मात् प्राक् एकं वक्तुम् इच्छामि अत्र सर्वे जनाः एकम् एकं वाक्यं वदतु जालपुटे तु अस्माकं पुरतः अस्ति परन्तु स्मरणे एव भवेत, इति अहं चिन्तयामि तत् एकमेकम् इदानीम् अनिता भगिनी ता आरम्भं कुर्म अनिता भगिनी वदतु त्वाल्यप्रत्ययस्य योजनेन वाक्यं भवतु पुस्तकम् पुस्तकं क्रीत्वा तं पठामि पुस्तकं धृत्वा <laughs> सम्यक् अस्ति धृत्वा पुस्तकं धृत्वा पूर्णं वाक्यं वा पठामि पठामि अहं पुस्तकं धृत्वा पठामि अस्तु भवती पुस्तकम् आदृत्य पठति वा धृत्वा आधृत्य उपसर्गसयितृ आदृत्य सम्यक् अग्रिमे योग्यमस्ति भगिनी अग्रिमे आगस्ट् महोदये भवान् वदति वाक्यं वा प्रत्यय वा लप् प्रत्ययस्य योजनेन एकं स्वरचितवाक्यं वदतु भोजनं खादित्वा अहं विश्रान्तिं करोमि उत्तमम् उत्तमम् उत्तमम् उत्तमम् तत्र एकमस्ति अहं वदामि तत्र भोजनानन्तरं वामकुक्षी इति वदति भोजनानन्तरं यत् विश्रान्ति अस्ति एवं खलु जयन्ति भगिनी भवती जानाति वामकुक्षी इति वामकुक्षि इत्युक्ते यु हाव् टु स्लीप् आन् देफ्ट् हेण्ड् सैड् आम् देट् टु नोट् अ वेरि सौण्ड् स्लीप् ए सच् Mm. परन्तु सम्यक् आं तत् वामकुक्षी इति अस्ति शास्त्रे तत् वामकुक्षी नाम्ना mm. ना, ना, mm. अस्तु उत्तममस्ति ओगस्ट महोदय भारतमहोदय भवान् वदति वा आं भगिनि न अहं पाठशालां गत्वा पाठं पठामि बहु सम्यक् पाठशालां गत्वा पाठं पठामि उत्तममस्ति उत्तमं द्वितीयविभक्तिप्रयोगः ग गत्यार्थे द्वितीया पाठशालां गत्वा उत्तमं उत्तमं जयन्ति भगिनी भवत्या वदतु आं भगिनि अहं श्वः मेलकोटनगरं गत्वा कृष्णं दर् दर्शित्वा उडुपि गच्छामि उडुपितः बेङ्गलूरुनगरम् आगत्य स्वनगरं भविष्यामि उत्तमम् उत्तमं लप्प्रत्यय त्वा प्रत्यय द्वयोः योजनेन वाक्यम् उत्तमं धन्यवादः दन्या, माल्टी भगिनी वदति वा आ, मम भगिनी देवालयं mm -hmm. गत्वा ए, गत्वा नमति देवालयं गत्वा नमति सम्यक् सम्यक् देवालयं गत्वा राधा भगिनी वदति वा <coughs> um, uh, बालकः क्रीडित्वा uh, uh, जलं पीबति सम्यक् क्रीडित्वा जलं पीबति श्रीवत्स महोदय आम् um, अहं uh, शयनं शयनं गत्वा um, स्वप्नं um, पश्यामि <laughs> <laughs> शयनं गत्वा इति व्याकरणदृष्ट्या तु योग्यमस्ति यद्भवान् उक्तवान् परन्तु तत्र शयनं गत्वा इति नास्ति तत्र शय्यागृह्य शय्यागृहं गुरु, गत्वा वा शय्यायां गत्वा तत् शय्यां गत्वा तत्र शयनम् इति क्रिया अस्ति खलु हा शयनम् अहं पठनं गत्वा इति वयं न वदामः एवं खलु हा शयन अहं शय्यागृहे गत्वा अनन्तरं यत्किमपि अस्ति चेत् हा तथैव सम्यक् श्याम्ला भगिनी वदति वा आगे। आगे। नमस्ते भगिनि नमस्ते अहं गृहपाठं लिखित्वा क्रीडाङ्गनं करोति हा क्रीडां करोमि करोमि अहं क्रीडां करोमि वा क्रीडामि इति क्रीडामि अपि अस्ति टु क्रीड् इट्स् टु प्ले एवम् अस्ति तथैव अस्माभिः करणीयमस्ति स्वरचितानि वाक्यानि अस्तु अद्यदिने वीणा भगिनी वक्तुं न शक्नोति इति सा उक्तवती अस्तु जालपुटे यद्दत्तमस्ति तस्य अपि किञ्चित् अभ्यासः कुर्मः दृश्यते स्क्रीन् दृश्यते अस्तु भगिनि पठनस्य आरम्भं कुर्मः भगिनी आरम्भं करोति वा त्वाल्यप् प्रत्यय आं भगिनि इक्त्वा ल्यप् प्रत, प्रत्यय प्रत्ययोगः इक्त्वा ल्यप् इति प्रत्ययौ स्तः एकः कर्ता कार्यद्वयं कर्म कर्मति पूर्वकार्यं यत् अस्ति तस्य सूचना धातोः इक्त्वा प्रत्य इक्त्वान्तरूपेण भवति यदि धातुः उपसर्गसहितः भवति तर्हि इक्त्वा प्रत्यय प्रत्ययस्य स्थाने ल्यप्प्रत्ययः भवति वाक्यान्तशब्दाः ल्यप्रत्ययान्तः hmm. शब्दाः अव्ययानि भवन्ति इत्युक्ते अव्ययानि भवन्ति इत्युक्ते न व्ययः तत्र विभक्तिप्रत्ययः नास्ति तत् त्वा त्वा एव तथैव तिष्ठति सर्वेषु विभक्तेषु स्थलेषु तत्र त्वा एव अव्यय इति अस्तु अधुना तत् वाक्यद्वयं वाक्य वाक्यत्रयं पठतु त्वा प्रत्ययस्य हा बालः देवालयं गच्छति सः अच्छति बालः देवालयं गत्वा अर्षति बालः खादति सः पिबति बालः खादित्वा पिपति माता स्नाति सा मोदकं पचति माता स्नात्वा मो मोदकं पचति सम्यक् स्नात्वा स्नाति इति हा अस्तु धन्यवादः भगिनि धन्यवादः अग्रिमे भारतमहोदय भवान् पठति वा आम् भगिनि त्वं पुस्तकं पठसि सः क्रीडति अपि अस्ति खलु तत्र सः क्रीडति क्रीडति सः खादति सः क्रीडित्वा खादति त्वं पुस्तकं पठसि त्वम् उत्तरं देहि पुस्तकं पठित्वा उत्तरं देहि अत्र देहि इस् देहि इत्युक्ते तत्र लोट् लकारे मध्यमपुरुष एकवचनान्तरूपम् अस्ति देहि तत्र स्तोत्रेषु बहुषु स्थलेषु तत्र देहि इति अस्ति एवं खलु जयन्ति भगिनी देहि इति श्रूयते खलु देहि देहि सम्यक् तत्र देहि इति अस्ति अस्तु अग्रि अग्रिमे पठतु अहम् आपणं गच्छामि अहं शाकानि आनयामि अहम् आपणं गत्वा शाकानि आनयामि कृषिकाः भूमिं कर् कर्षन्ति ते जलं सिञ्च सिञ्चति कृषिकाः भूमिं कृष्ट्वा कर्मकराः कार्यं कुर्वन्ति ते वेतनं नयन्ति कर्मकराः कार्यं कृत्वा वेत् वेतनं नयन्ति रामः चिन्तयति सः उत्तरं लिखति रामः चिन... चिन्तयित्वा चिन्तयित्वा उत्तरं लिखति हा अत्र सर्वेषु स्थलेषु किम् प्रथमं यत् कार्यं प्रचलति प्रथमं कार्यं तस्य धातोः कृते त्वाप्रत्ययन्तरूपम् अस्तु सर्वेषु स्थलेषु तत्र गच्छति गत्वा खादति खादित्वा स्नाति स्नात्वा क्रीडित्वा पठित्वा गत्वा कृष्वा अत्र Uh, केषुचित् स्थलेषु तत्र इ इति भवति खादति तत्र खादित्वा इति भवति गत्वा गच्छति तत्र गत्वा एव भवति किमर्थं सूत्राणि सन्ति कुत्रचित् इडागम इति इकार यद्दृश्यते इडागम भूत्वा तत्रूपं निष्पद्यते तथैव कर्मकरा क्षम्यतां कृषकाः भूमिं कर्षन्ति कर्ष इति धातु तत्र किं भवति त्वान्तरूपं कर्षित्वा इति न तत्र कृष्ट्वा इति भवति तत्र सूत्राणि सन्ति तेन कृष्ट्वा इति रूपं निष्पद्यते अस्तु अस्ति धन्यवाद धन्यवादः धन्यवादः श्याम्ला भगिनी अग्रिमे पठति वा त्वान्तरूपाणि अस्तु भगिनि स्वान्तरूपाणि धातुः लट्लकारः स्वान्तरूपं गच्छति गत्वा लिख् लिखति लिखित्वा कृ करोति कृत्वा हस् हसति हसित्वा खाद् खादति खादित्वा धाव् धावति धावित्वा स्मृ स्मरति स्मृत्वा क्री क्रीणाति घृत्वा हृ हरति हृत्वा स्मृ स्मरति स्मृत्वा सृ सरति श्रुत्वा श्रु स्मरति श्रुत्वारति श्रुत्वा श्रुणोति श्रुत्वा स्था स्ना स्नाति स्नात्वा ब्रह्म भ्रमति भ्रमित्वा जप् जपति जपित्वा खण् खणति खणित्वा ग्रन्थ् ग्रन्थति ग्रन्थित्वा निद्र निन्दति निन्दित्वा नृत्य न्तियत, नृत्यति नर्तित्वा सम्यक् सम्यक् भगिनी धन्यवादः हा धन्यवादः धन्यवादः इदानीम् अग्रिमे श्रीवत्समहोदय अत्र पश्यतु अत्र हसित्वा इति रूपं स्वीकृत्य एकं वाक्यम् हसि बालकः हसित्वा खादति उत्तमं धावित्वा रामः धावित्वा पाठशालां गच्छति अस्तु पठित्वा सा पठित्वा जलं पिबति वा शिशुः पतित्वा रोदिति इति अग्रिमे स्मृत्वा स्मरति बालकः स्मृत्वा उत्तरं ददाति सम्यक् श्रुत्वा अहं सङ्गीतं श्रुत्वा खादामि स्नात्वा स्नात्वा अथं किं भगिनि स्नात्वा स्नानं कृत्वा स्नानं कृत्वा अहं रामः स्नात्वा गायनं गाय गायनं गायामि वा भ्रमणार्थं गच्छामि अस्तु okay. मन्दिरं गच्छामि देवपूजां करोमि एवम् अस्तु भ्रमित्वा भ्रमित्वा विषये भ्रम भ्रमति भ्रमित्वा वदतु सः सः आपणं भ्रमित्वा वस्त्रं प्राप्नोति प्राप्नोति हा अत्र तत्र भ्रमणं कृतवान् आसीत् सः अन्तिमतः सः प्राप्नोति इति सम्यक् उत्तममस्ति एवं हा अग्रिमे राधा भगिनी धन्यवाद महोदय हा राधा भगिनी आम् आम् भगिनि तत्र जपित्वा वाक्यं रचयतु सः मन्दिरं जपित्वा गृहम् आगच्छति सम्यक् खणित्वा कृषकः खणित्वा बीजं बीजं तत्र बीजरोपणं करोति इति अपि वक्तुं शक्नोति बीजरोपणं करोति ओके क्रन्दित्वा क्रन्दित्वा शिशोः कृते वक्तुं शिशुः क्रन्दित्वा गृहं गच्छति निन्दित्वा बालकः रोदतिदित्वा इति न तत्र किं किम् अस्ति अत्र भगिनि निन्दा निन्दा करणीयमस्ति तत्र निन्दा इत्युक्ते निन्दा स्तुर्थ निन्दा बेड् अबौट् सम्दा okay okay i thought it was colding okay okay to talk bad ninda okay. ninda uh, ninda is sort of hurting na right, right. okay okay so, ninda vishe kim mm -hmm. vadati ah uh, mitram ninditva ah uh, saha mm -hmm. ah uh, rodati ha tatapichalati नो चेत् तत्र तत् अपि सम्यक् मित्रं निन्दित्वा अहमपि विषादम् अनुभवामि ओके इत्युक्ते तत्र निन्दा इट्स् नाट् अ गुड् थिङ्ग् टु बि डन् एट् सो अहं कृतवती निन्दित्वा अहमपि विषादम् अनुभवामि ट् गुड् निन्दा करणीयम् अन्यस्य अन्येषां निन्दा न करणीयम् इति अस्ति तत् मया अहं कृतवती तत् अतः अहमपि दुःखम् अनुभवामि विषादम् अनुभवामि अग्रिमे नर्तित्वा सा नर्तित्वा भोजनं खादति अस्तु सा नर्तित्वा अभिनयः अभिनयः अपि करोति इति सा नर्तित्वा ओके ओ नर्तित्वा अभिनयं करोति अस्तु एवं किञ्चित् चिन्तनेन तत् भवति अत्र पश्यन्तु सर्वे पश्यन्तु अस्माकं टुडे इस् फार्टि टु नम्बर्स् ओके अग्रिमे वर्षे ट्वेण्टि ट्वेण्टि एषः उद्देशः भवेत् पञ्चवाक्यानि वा षड्वाक्यानि वयं वक्तुं शक्नुमः एवम् इति अवर् एन् इति अहं चिन्तयामि अस्तु भगिनी धन्यवादः धन्यवादः अस्तु आगस्ट् महोदय भवान् पठति वा ह लट् क्वान्तरूपमिति अवस्तु महोदय धातु लट्लका स्वान्तरूपं स्क्रीन् उपरि यत् अस्ति तत् पठति वा पा पिबति पित्वा तत् पठति coordinate is a noise next to okay. so, you no nadrushyateva no, kri na no, drushyate yes drushyate ha tat vishesh rupani tat pathati va sura suryah so, so, drishva aham uh -huh. uh -huh. प्रथमं महोदय प्रथमं केवलं पठनं करोतु पा पिबति पीत्वा दा ददाति दत्त्वा अनन्तरं वाक्यरचना अपि भवेत् केवलं पठनं पीत्वा रुद् रोदिति रुदित्वा पच् पचति पत्वा भवति भो त्वा अस् अस्ति भोत्वा पृश् पश्यति दृष्ट्वा पृच् पृच्छति दृष्ट्वा नम नत्वा गृह्णाति गृहीत्वा सम्यक् इदानीम् अगस्त् महोदय तत्र लट्लकाररूपमपि अस्ति त्वान्तरूपमपि अस्ति एतादृशी वाक्यरचनां करोतु यस्मिन् लट् लकारत्वान्तरूपं द्वयोः अन्तर्भूतः द्वे अपि तत्र अस्ति वाक्ये उदाहरणार्थं पिबति पित्वा इति उदाहरणार्थं वदामि बालक हा बालकः पानीयं पिबति पित्वा क्रीडाङ्गणं गच्छति एवम् एतादृशी वाक्यरचनां करोतु लट्लकाररूपं क्वान्तरूपं तत्र ददाति विषये तिष्ठति विषये भवतः भवान् यत् इच्छति तत् स्वीकरोतु परन्तु तत्र लट्लकाररूपमपि क्वान्तरूपमपि रचयतु वदतु बाल <स्था> बालकः <श्थिवा>, स्थित्वा <नहीं? ताहा>, सः <स्था> पाठति सम्यक् बालकः स्थित्वा पुस्तकं पठति सम्यक् इतोपि एकं वदति वा सूर्यः दृष्ट्वा ध्यानं करोमि सूर्यं दृष्ट्वा अहं ध्यानं करोमि सम्यक् इतोपि एकः इतोपि एकं प्रयत्नं करोतु वदतु सन्तोषं प्राप्नोमि सन्तोषम् अनुभवामि यदै भवामि इति भवति चेत् सन्तुष्टः भवामि इति अस्ति सन्तोष सन्तोषं प्राप्नोमि सन्तुष्टः सन्तुष्टः इति प्रथमान्तपदम् अहम् सन्तुष्टः भवामि अस्तु उत्तमः उत्तमः प्रयत्नः हा उत्तममस्ति अस्तु जयन्ति भगिनी तथैव करोतु भवती अपि वाक्यद्वयं वाक्यत्रयं वदतु लट्लकार अपि भवेत् क्वान्तरूपमपि भवेत् किमपि दातु वक्तुं शक्यते वा अस्तु भगिनि ओदनं पचामि पचित्वा नैवेद्यं करोमि हा अहम् ओदनं पचामि पक्त्वा पक्त्वा इति अस्ति खलु आम् आम् पक्त्वा, आ, आ, आ, आ, पक्त्वा नैवे नैवेदनं करो निवेदनं करोमि नैवेद्यं करोमि अस्तु अर्पयामि इति अर्पणमस्ति नैवेद्यस्य विषये अर्पयामि इतोपि वदतु अहं प्रश्नं पृच्छामि पृष्ट्वा उत्तरमपि ददामि सम्यक् ah. अस्ति इतोपि hmm. एकम् अहं देवं नमामि नत्वा अहं मन्दिरं गत्वा देवं नमामि नत्वा गृहम् आगच्छामि सम्यक् उत्तममस्ति धन्यवादः उत्तममस्ति धन्यवादः इतोपि अनिता भगिनी प्रयत्नं करोति वा वक्तुमिच्छति वा किमपि परन्तु अनिता भगिनी अनिता भगिनी नाट् बै योर् चाय्स् अहं वदामि ओके रोदिति रुदित्वा बालकः रोदिति रुदित्वा सर्वं प्राप्नोति <laughs> यदा रोदनं भवेत् तदा माता सर्वं ददाति इति सम्यक् इतोपि इदानीम् अस्ति भूत्वा वदति वा अस्ति भूत्वा <laughs> अहं गृहे अस्मि गृहं भूत्वा तु, तस्य प्रतीक्षां करोमि अस्तु सम्यक् अस्ति जानाति ज्ञात्वा इदानीं किमपि न ज्ञात्वा त्वां सर्वं सर्वं वदामि अस्तु उत्तममस्ति भवती तु सर्वं सर्वं जानाति न जानामि इति न <laughs> भवती जानाति ज्ञात्वा एव सर्वं वदति अस्तु अस्तु उत्तमम् अस्तु उत्तमम् अस्तु लेफ्ट् प्रत्ययस्य अपि एकवारं पठनं कृत्वा अनन्तरं वयम् अस्माकं कथायाः विषये तत्तु एक्ससैज् भवन्तः सर्वे कर्तुं शक्नुवन्ति लेफ्ट् प्रत्ययस्य किञ्चित् पठनं कृत्वा अग्रे अस्तु धन्यवादः धन्यवादः सर्वेषां धन्यवादाः पुनः एकवारं मार्ति भगिनि पठति लेफ्ट् प्रत्ययः पठति वा प्रथमं कार्यं बालकः उपविशति सः जलं पिबति बालकः उपविश्य जलं पिबति hmm. माता द्वारं प्रक्षालयति स hmm. रङ्गोलीं लिखति माता hmm. द्वारं प्रक्षाल्य रङ्गोलीं लिखति रङ्गवल्लिं लिखति रङ्गवल्लीं रङ्गवल्ली श्यामः द्वारम् उद्घाटयति सः बहिः गच्छति श्यामः द्वारम् उद्घाट्य बहिः गच्छति गच्छति छात्रा लेखनीं स्वीकरोति सा चित्रं लिखति छात्रा लेखनीं स्वीकृत्य चित्रं लिखति भक्तः प्रतिमां स्थापय स्थापयति सः पूजां संस्थापयति सः पूजां करोति भक्तः प्रतिमां संस्थाप्य पूजां करोति सा माम् अनुसरति वेगेन आगच्छति सा माम् अनुसृत्य वेगेन आगच्छति वानरः वृक्षम् आरोहति सः फलानि पातयति वानरः वृक्षम् आरुह्य फलानि पातयति अस्तु अत्र किं दृश्यते तत्र उप इति उपसर्गपूर्वकविषधातु अनन्तरं शाल् प्र उपसर्ग उत् घाटयति तत्र स्वीकरोति स्वी स्वीकरोति सम इति उपसर्ग अनु इति उपसर्ग आ इति सर्वेषु स्थलेषु तत्र लक् प्रत्ययान्तरूपाणि भवति अस्तु अग्रिमे अपि अस्ति किञ्चित् एतत् अपि पठतु ग्राहकः फलानि लट्लकारः गच्छति <mardaid subtle> तत् ग्राहक वाक्यानि सन्ति खलु ग्राहकः फलानि स्वीकरोति ग्राहक फलानि स्वीकरोति सः धनं ददाति ग्राहकः फलानि स्वीकृत्य धनं ददाति बालः आगच्छति सः स गन्तुकं दु, सः लुग्धं पिबति बालः आगत्य लुप्तं पिबति धनिकः hmm. धनं सङ् सङ्गृह् गृह् गृह्णाति hmm. सङ्गृह्णाति सः दानं करोति धनिकः धनं दन... सङ्गृह्य दानं करोति अस्तु भगिनी धन्यवादः धन्यवादः oh. इदानीं किं करणीय पश्यन्तु oh. अद्यदिनस्य कथा महती अर्थपूर्णा कथा अस्ति तत् कथाया आरम्भं कुर्मः वा एतत् समापयामः किं करणीयमस्ति योर् चाय्स् वदन्तु कथाया आरम्भं कुर्मः कथारम्भ अस्तु अग्रिमे वर्गे एतदपि पठामः दृश्यते स्क्रीन् दृश्यते आं दृश्यते भगिनि भारत्महोदय आरम्भं करोति वा पठति वा पूर्वं कश्चन भगवतः प्रियः भगवतः अत्र भगवतः इति षष्ठी अस्ति भगवतः प्रियः देवस्य प्रियः ईश्वरस्य प्रियः ईश्वरस्य प्रियः कः तस्य विषये एषा कथा सर्वेषां कृते ईश्वरस्य विषये मनसि निष्ठा तु अस्ति एव परन्तु ईश्वरस्य कः प्रियः तस्य कथा पठतु महोदय कश्चन सज्जनः आसीत् परोपकारः एव तस्य वृत्तिः सामान्ये कुटीरे वसन् सः सर्वदा जनानां साहाय्ये ता, मग्नः भवति स्म अथ एकादा रात्रौ स्वप्ने कश्चन देवदूतः प्रत्यक्षः प्रत्यक्षः कृत्वा अवदत् भो भोः मम हस्ते काचित् आवली अस्ति ये पक्त्या भगवन्तं प्रार्थयन्ते तेषाम् आवली एषा किन्तु एतस्याम् आवल्यां नव तव नाम नास्ति इति इत्युक्ते अत्र किम् अभवत् तत्र एकः सज्जनः तस्य वृत्तिः परोपकार एव परेषाम् उपकारः उपकारः उपकार गिव इत्युक्ते किं महोदय सम्यक् योग्यं स्वभावः परोपकारीस्वभावः इति कुटीरे किटीरुक् कुटी, कि, कुटी, कुटी हठ वसन सह सर्वदा जना सहाये मगन बवती स्म अभी स्म भूतकालशयु अं सहाय कारणे सह निम सह सदैव तथैव मग्न किम अन्येषाम् साहाय्यं करोति अन्येषाम् कृते परोपकारम् करोति इति mm. एकदा रात्रौ स्वप्ने यदा mm. mm. सः अनुभूतवान अनुभूतवान् तस्मिन् समये एकः देवदूतः देवदूतः इत्युक्ते कः महोदय एञ्जलि इति खलु देवदूतः प्रत्यक्षः भूत्वा अत्र त्वप्रत्यय आगच्छति भूत्वा हा भवति भूत्वा अवदत् भो, भो मम हस्ते काचित् आवली अस्ति आवली इत्युक्ते लिस्ट इति लिस्ट, लिस्ट् आवली आ, ये भक्त्या ये भक्त्या भगवन्तं प्रार्थयन्ते तेषाम् आवली एषा अत्र अवधानं ददातु किमस्ति भगवन्तं प्रार्थयन्ते इत्युक्ते ये जनाः भगवतः प्रार्थनां कुर्वन्ति भगवन्तं द्वितीया प्रार्थयन्ते तेषां सो so, दिर् इस् अ लिस्ट् स्टेटिङ्ग् वाट् इत्युक्ते नियमितया प्रार्थनां कुर्वन्ति तेषाम् आवली लिस्ट् देवदूतस्य समीपे अस्ति अग्रिमे सः किं वदति देवदूतः किन्तु एतस्याम् आवल्याम् तव नाम नास्ति युवर् नेम् इस् नाट् डेफ् इन् देट् लिस्ट् पे भवान भगवन्तम् न प्रार्थयति वा परोपकारिसज्जनः तस्य कार्यम् किम् सर्वेषाम् कृते साहाय्यम् ददाति स सा। परन्तु वटेव तत्र, तत्र किमस्ति आवल्यां किमस्ति ये जनाः भगवन्तं प्रार्थयन्ति ये जनाः भगवतः प्रार्थनां कुर्वन्ति तेषां भवतः नाम एव नास्ति युवर् नेम् इस् नोट् इन्क्लूडिड् देट् लिस्ट् अस्तु तदा अग्रिमे पठतु जनः अवदत् स्यादपि अहं तु आदिनं आधि, दरिद्राणां दिनानां च सेवायां निरतः भवामि तत्तानां ता, तत्सानां सेवार्थमेव अपर्यात् तथा अतः प्रार्थनां मम समयः कः प्रार्थनार्थः प्रार्थनार्थं प्रार्थनां मम समयः अन्यच्च मया प्रार्थ प्रार्थनीयं किमपि नास्ति भगवान् सर्वं जानाति एव अतः कार्यं कुर्वन् एव अहं भगवतः ध्यानं तु करोमि भव याम् अमल्यं मम नाम नास्ति इत्यत्र अल्पमपि दुःखं नास्ति मम अस्तु इदानीं किम् अभवत् सज्जनं देवदूतः उक्तवान् भवतः नाम तु नास्ति एव अत्र येषामावल्याम् ये जनाः भगवन्तं प्रार्थयन्ते तेषु भवतः नाम नास्ति तदा सः सज्जनः अवदत् स्यादपि इत्युक्ते स्यात् अपि स्यात् अपि इत्युक्ते भवतु नाम लिटिट् बि अहं तु आदिनम् दरिद्राणां दीनानां च सेवायां निरतः भवामि आदिनं रैट् स्टार्टिङ्ग् फ्राम् द डे फ्राम् अर्लि मार्निङ्ग् टिल् नैट् सो आ इति आसेतु हिमालयम् इति स्टार्टिङ्ग् फ्राम् द डे आदिनं दरिद्राणां दीनानां दरिद्राणां दीनानाम् इत्युक्ते किं भारतमहोदय दरिद्राणां येषां समीपे धनं नास्ति दीनानाम् इत्युक्ते येषां स्थितिः सम्यक् नास्ति तेषां कृते सेवा सेवाम् अर्पयामि सेवायां निरतः भवामि निरतः निरन्तरः भवामि एव समयस्य दृश अप्याता पश्ये अपरियाता पर सफिशिएट परता अप्याता मे समीपे समय अस्त सेवाया तादृशानाम् इत्युक्ते लोके तादृश तादृशाः जनाः बहवः सन्ति येषां कृते सेवायाः आवश्यकताम् अस्ति तादृशानां सेवार्थम् एव समयस्य अपार अपर्याप्तता टैम् इस् नोट् इस सफिशियण्ट् फार् मी अतः <laughs> ेवकार्यार्थम् एव समयः पर्याप्तं नास्ति मम समीपे प्रार्थनार्थं मम समयः कः समयः क्व इति समयः किमर्थं समयः कथम् एवं प्रार्थनार्थं मम समयः भवतः समीपे आवलिम् अस्ति आवल्यां ये जनाः भगवन्तं भजति प्रार्थयन्ते तेषां नामानि नाम्नानि सन्ति परन्तु मम समी प्राथना समय है मम सम अपरिया किम अम समय किमकार्या मम समी समय नर्याप्त सयस्टे जरिद्र दरिद्रा दीना सेवा करना मम सीपे समय न कथं प्रार्थनार्थं समयः लभ्यते इति अन्यच्च अन्यत् च इतोपि एकं वदामि किम् मया प्रार्थनीयं किमपि नास्ति मया प्रार्थनीयं किमपि नास्ति इत्युक्ते किं श्रीवत्समहोदय अग्रिमे मया प्रार्थनीयं किमपि नास्ति किमर्थं भवति अत्र um. तस्य समीपे किमपि प्रार्थनां नास्ति इत्युक्ते एषः भावकः अत्र पश्यन्तु सर्वे मया प्रार्थनीयं किमपि नास्ति इत्युक्ते प्रार्थना तत्र प्रार्थना किमर्थम् अधिकांशप्रायेण जनाः प्रार्थनाः प्रार्थना प्रार्थनां कुर्वन्ति किमपि प्तव्यमस्ति चेत् कुर्वन्ति प्रायेण इति वदामि तत्र निरलसतया अपि जनाः सन्ति तत् अहं न वदामि परन्तु प्रायेण प्रार्थनां करो इत्युक्ते तत्र मया किमपि प्राप्येत् मया किमपि प्राप्तव्यमस्ति तदा एव जना प्रार्थना प्रार्थनां कुर्वन्ति परन्तु मया सः वदति अहं किमपि न इच्छामि सज्जनस्य मनसि कस्य अपि लोभ एव नास्ति मया प्रार्थनीयं किमपि नास्ति भगवान् सर्वं जानाति एव भगवान् तु सर्वज्ञ सर्वं जानाति अतः कार्यं कुर्वन् एव अहं भगवतः ध्यानं तु करोमि इत्युक्ते किम् श्रीवत्समहोदय कार्यं कुर्वन् एव अहं भगवतः ध्यानं तु करोमि um... वदति तस्य तस्य तस्य कार्यः दीनानां दरिद्राणां सहाय्यं सहायं सम्यक् अस्ति तत्कार्यमपि तत् ता, तत्कार्येण सह भगवन्तः ध्यानं करोमि इति तत्र ध्याने मम ध्याने तु ध्यानस्य कृते ध्यानस्य कृते समयः इति न परन्तु मम यत् कार्यं प्रचलति सेवाकार्यं प्रचलति दीनानां कृते यत् कार्यम् अहं करोमि तदेव ध्यानमेव तत् सा एव मम प्रार्थना तत् एव मम ध्यानम् तत् एव मम नमनम् इति सः वदति भवद्भ्य भव भवद्भ्यस्तगतायाम् आवल्यां यत् या आवली भवतः समीपे अस्ति मम नाम नास्ति इत्यत्र अल्पमपि दुःखं नास्ति मम इत्युक्ते किं भारत महोदय अन्तिमं वाक्यं परीक्षेते मम नाम नाट् इन् द लीस्ट् सो अवल्या मम नाम अवल्यां मम नाम नास्ति सम्यक् तस्य अल्पमपि दुःखं नास्ति मम इत्युक्ते अहं किमपि दुःखम् अल्पं स्वल्पं दुःखं न अनुभवामि किमपि hmm. दुःखं नास्ति अल्पमपि दुःखं मया नास्ति इति भवतु नाम मम नाम नास्ति तत्र आवल्यां भवतु नाम स्यादपि इति अस्ति अस्तु hmm. अग्रिमे पठति श्रीवत्समहोदय अग्रिमे पठति ah. वा देवदूतः ah. देवदूतः ततः अन्तर्हितः ah. अभवत् ah. ah. अनन्तरदिने रात्रौ अपि सः देवदूतः पुनरपि स्वप्ने प्रत्यक्षः अभवत् तदा सज्जनेन उक्तवान् सज्जनेन उक्तम् पुनरपि किमर्थम् आगतं भवता मया भगवन्तम् उद्दिश्य किमपि प्रार्थनीयं नास्ति ननु इति इदानीं किम् अभवत् किञ्चित् विवृणोतु किम् अभवत् Um, एतं श्रुत्वा देवदूतः um, अन्तर्हितः अं, अभवत् uh, सः um, सः um, गच्छति um, अनन्तरदिने पुनरपि um, देवदूतः सज्जनस्य um, स्वप्ने प्रत्यक्षः अभवत् um, सः सज् एषा सज्जना um, तदेव दूतम् उक्तवान् आगत, mm. किमर्थं पुनरपि आगत् आगतवन्तः गतवान् किमर्थम् आगतवान् किमर्थम् आगतवान् सः सः सज्जनः उक्तं तस्य तस्य mm? Um, तस्य किमपि uh, प्रार्थ uh, प्रार्थनां नास्ति भगवान् uh, उद्दिश्य mm. इति uh, uh, um, पुनरपि सः um, um, देव देवदूतम् देव, देव uh, उक्तवान् पुनः oh. पुनः किमर्थं भवान् आगच्छति मया भगवतम् उद्दिश्य किमपि प्रार्थनीयं नास्ति ननु इति एकवारम् अहम् उक्तवान् खलु एकवारम् अहम् मया प्रार्थनीयं किमपि नास्ति पुनरपि भवान् आगच्छति पुनरपि भवान् किमर्थम् आगतवान् मया भगवन्तम् किमपि प्रार्थनीयं नास्ति ननु ननु खलु देट्स् अ स्टैल् आफ् स्पीकिङ्ग् मया भगवन्तम् उद्दिश्य किमपि प्रार्थनीयं नास्ति ननु एवं खलु इति अस्तु हा धन्यवाद भारतमहोदय अस्तु अग्रिमे राधाभगिनी पठति वा क्षम्यतां धन्यवाद भारतमहोदय श्रीवत्समोदय अग्रिमे राधाभगिनी हा आं भगिनि तदा देवदूतः अवदत् अद्य अन्यविधाम् आवलीं गृहीत्वा उपस्थितः अस्मि अहम् hmm. सा आवली कीदृशी स्यात् चेदपि मम तु न तत्र भवदावल्याम् येषाम् नाम स्यात् तादृशान् भवान पश्यतु न तु माम् इति अवदत् सज्जनः मम हस्ते स्थितायाम् आवल्यां तव नाम आदौ एव अस्ति पर्याप्तम् इदानीं किम् भगिनी किञ्चित् वदतु देव देवदूतः वद वदति अहम् अन्य आवली गृहीत्वा आगतवान् मम मम मम समीपे अन्य आवलि अस्ति इति तदा आ, सज्जना अवदत् सा आवलि कीदृशं मम तु न आसक् आसक्ति तत्र इच्छा अच्छा ओके अत्र okay. okay. आसक्तिः तत्र न भगिनी तत्र लोभः Oh. आसक्तिः तृष्णा okay. इच्छा hmm. तत्र डिफ्रेण्ट् uh, uh, शेड्स् इति वक्तुं शक्नुमः okay. इच्छा अस्ति अनन्तरम् आसक्तिः प्रकर्षेण इच्छामि चेत् आसक्तिः भवति अनन्तरम् आसक्तिः आसक्तेः अनन्तरं लोभः जनयति हा hmm. लोभः अनन्तरं तृष्णा एवं तत्र आसक्तिः इत्युक्ते अहं किमपि न इच्छामि इति Not at all interested, it सज्जना अवदत् तस्य आवली कीदृश स्यात् मम न Na मम Mama Na, mama na uh, mm. uh, uh, Esham Nama मम uh, Mama Nama इति भवदावल्या एषां नाम स्यात् Tadrishan भवान् पशु भवान् पश्यतु न तु मम नाम तत्र नास्ति इति हा इत्युक्ते पूर्वे किम् अभवत् पूर्वे सः देवदूतः आगतवान् किम् उक्तवान् भवतः नाम एव नास्ति तत्र ये भक्त्या भगवन्तं प्रार्थयन्ति तेषाम् आवली कथं भवान् प्रार्थनां न करोति वा भवतः नाम एव तत्र नास्ति पुनरपि सः आगतवान् अस्ति आगतवान् आसीत् अनन्तरं वदति किमस्ति अत्र अहं न इच्छामि द्रष्टुमपि न इच्छामि हा mm. पुनरपि किमर्थम् आगता भवता मया भगवन्तम् उद्दिश्य किमपि प्रार्थनीयं नास्ति ननु mm. हा अत्र अन्यविधामावली इति अन्यविधा आवली mm. अन्यविधाम् आवली, आवलीं मम समीपे अस्ति इति देवदत्त उक्तवान् mm. mm. अत्र स्वस्य इच्छा अपि सः न दर्शितवान् सज्जनः स्वस्य इच्छायाः प्रकटीकरणमपि न कृतवान् अत्र मम न आसक्तिः एव भवत् आवल्यां येषा नाम स्यात् अत्र अपि भवतु नाम, नाम। ना। कस्य नाम अस्ति कस्य नाम नास्ति भवान् एव पश्यतु oh, okay. Okay. not interested at all not interested yeah. Na, is, i'm not interested you just see what is there in that list some mad in any uh mm -hmm. edhanim, uh asmaakam uh, sarvesha amkruti esha anubavasiti yada um result it right kala dhine atra mm -hmm. vayam uh swastya gunan tu pascha maha mm -hmm. param tu annesha mapi <laughs> <laughs> <laughs> <laughs> ह्यूमन् नेचर् सर्वसाधारणतत्र मनुष्यस्वभावः एव अस्ति परन्तु एषः तु सज्जनः mm -hmm. सः वदति येषां नाम स्यात् भवतु नाम भवानेव पश्यतु mm -hmm. न तु माम् इति mm -hmm. अवदत् सज्जन अस्तु okay. अस्तु धन्यवादः भगिनि धन्यवादः <laughs> अग्रिमे आगस्ट् मोदे भवान् पठति वा मम हस्ते भगिनी मम हस्ते स्थितायाम् आबल्यां तावनाम आदाौ एव अस्ति यः भवान् अवदात् मम आबल्यां तव नाम न ना इति अद्य भवान् वदति तव नाम आवल्याः आदौ एव अस्ति इति किं भवान् किं भवान् माम् विभ्रामयितुम् इच्छति hmm. किं दत्तमस्ति किञ्चित् विवरणं करोति वा स्वशब्दैः षष्ठी विभाक्ति तत्र षष्ठी नास्ति महोदय सीतायाम् आवल्याम् इत्युक्ते इन् लोकेशन् लोकेटिव् केस् इति सप्तमी अस्ति तत्र एव अस्याम् आवल्यां तव नाम आदौ एव अस्ति पूर्वे यत् आवलिम् पूर्वे आवलिम् अहमुक्तवान् तत्र तव नाम एव नास्ति परन्तु अत्र किञ्चित् भिन्ना आवली तस्याम् एष आवल्यां तव नाम आदौ एव अस्ति आदौ प्रथमस्थाने एव अस्ति आदौ आदि अन्त आदौ शब्दस्य सप्तम्यन्तपदम् आदौ एव अस्ति तव नाम अस्तु अनन्तरं सज्जन वदति किं वदति सज्जनः अवस्तु महोदय भवान् अवदात् इन् इन् मै लिस्ट् इस् नाट् चुदे सत्यं सत्यम् अद्य भवान् वदति day you say mm -hmm. your name mm -hmm. in in the list adult septum mm me sir sam ma in fact mm -hmm. it's in fact it, your name is in the list today and baban mam विभ्रामयितुम् इच्छति वाट् यु डिसैर्ड् टुत् मी नियर्टेक् संथिङ्ग् लैक् देट् बझल् इति इत्युक्ते भ्रमणं कथमस्ति सर्वे व्याकरण उषः अत्र पश्यन्तु वा भ्रमण इति अस्ति भ्रमति भ्रमति भ्रामयति भ्रामयति भवति चेत् निजन्त निजन्त इत्युक्ते तत्र प्रयोजक इति हा भ्रमति भ्रामयति विभ्रामयति विभ्रामयितुं तुमुन् प्रत्ययः किम् भवान् मां विभ्रामयितुम् इच्छति कन्फ्यूजन् आर् यू क्रियेटिङ्ग् कन्फ्यूजन् आर् यू इण्ट्रेस्टेड् इन् क्रियेटिङ्ग् कन्फ्यूजन् फार् मि विभ्रायितुम् इच्छति प्रथमता तातु वदति तव नाम एव नास्ति इदानीं वदति तव नाम तु आदौ अस्ति किमर्थम् किम् भवान् मां विभ्रायितुम् इच्छति अस्तु अवगतम् अवश्यं महोदय उत्तम अस्त धन्यवाद अग्रिम अनिता पटती अदस्थव भगवत्म आवलीस्वान कार्य कुरु तुम महती प्रीति भगवता हा। भगवता हा। ये सदा भगवतः तेभ्यः अपि भगवन्तं स्मरन्तः लोकसेवाकार्ये ये निरताः भवेयुः ते एव श्रेष्ठाः दृशेषु तव स्थानम् अत्युत् म् इति अवदत् देवदूतं यदूत किमस्ति अत्र देवदूतः वदति दिस् दिस् तिस् स् आवल् आवली आवली अहम् अद्य आवली हौडि अयम् एषा एषा आवली, आवली।, आवली।, आवली तु भगवतः प्रिया प्रियाणां प्रियाणाम् आवली अस्ति ये भगवत् ये ये भगवतः कार्यं करोमि कर, कुर्वन्ति तेषां नाम अस्मिन् आवल्यां अस्मिन् अस्याम् आवल्यां सन्ति mm. रैट् <laughs> सत्यं सत्यम् अग्रिमे ये ये आ, पर प पर, परोपकारं कुर्वन्ति mm. परस्य परस्य कृते आ, कार्यं कुर्वन्ति mm. तेषां स्थानं तेषां स्थानं उच्य अत्युच्चम् अत्युच्चमस्ति mm. आवल्याम् अत्युच्यमस्ति सप्तिङ्ग् लैक् देट् अत्र भेदः कः प्रथमावली या आसीत् प्रथमा आवली तत्र आवल्यां किमस्ति तत्र ये भगवन्तं प्रार्थयन्ते ये भगवन्तं प्रार्थयन्ते इत्युक्ते अस्माकं कृते भगवान् प्रियः इति वदति हा वदतु वदतु ये भगवतः किञ्चित् प्राप्तुम् इच्छति तेषां नाम बहु सम्यक् भगवतः तत्र पञ्चमी विभक्ति वर्तते भगवतः इति पञ्चमी अपि अस्ति षष्ठी अपि अस्ति तत्र भवती यत् उक्तवती तद् भगवतः फ्रां भगवान्तुम् इच्छति इति सर्वेषु जनेषु विषये तत्र सर्वेषु तत्र तत्र अस्ति इति अहं न वदामि पुनः एकवारं वदामि परन्तु प्रार्थना ये कुर्वन्ति तेषु एषा भाव भावना तु अस्ति एव किमपि प्राप्तुम् इच्छन्ति ते जना तेषाम् आवली प्रथमा परन्तु अद्य या प्रिया। प्रिया आवली अस्ति सा तु भगवतप्रियाणाम् आवली कथायाः नाम किमस्ति भगवतः प्रिया भगवतः तत्र षष्ठी अस्ति भगवतः प्रियः ईश्वरस्य प्रियः जनः ईश्वरस्य प्रियः जनय जनः भगवतप्रियाणाम् आवली भगवतः ईश्वरः मम प्रियः इति सर्वे वदन्ति ईश्वरः मम प्रियः इति सर्वे वदन्ति परन्तु एषः जनः ईश्वरस्य प्रियः भगवतः प्रियः भगवतप्रियाणाम् आवली तत्र आवली अस्ति किमस्ति निस्वार्थभावनयः कार्यम् ये कुर्वन्ति निस्वार्थभावनया ये कार्यम् कुर्वन्ति भगवतः महती प्रीतिः अस्ति तेषु इत्युक्ते निस्वार्थभावनया ये जनाः कार्यम् कुर्वन्ति ते जनाः भगवतः प्रियः ये ये सदा अति तेक्टे तस्मा अभी बेटर दगव स्म लोकसेवा कार्ये ये ते एव श्रेष्ठा भगवं स्मरती स्तुतिम कुर स्तुतिम कहना मंदरम न न गचतिमं तर भगवत स्मरत लोकसेवा कार्ये ये निरताे तदुशन अत्युत अत्युच्चम् अति उच्चम् अति उच्चम् द हैयेस्ट् लेवल् इति अवदत् देवदूतः स्पष्टमस्ति स्पष्टमस्ति वा सर्वेषां कृते इदानीं वदन्तु जयन्ती भगिनी कथायाः बोध आं वेणी एकः एक एक वाक्येन अहं वदामि यः यः अबलार्थं कार्यं सेवां करोति सः एव ईश्वरस्य प्रियः भवति अनन्तरम् एक सुभाषितं तमिळ् अस्ति वेणी मानस्य सेवा एव माधवस्य सेवा इति सम्यक् सम्यक् अत्र हिन्दीभाषायामपि अस्ति hmm. नरकीसेवासे हि नारायणबन्सक्तेः इति अस्ति खलु hmm. hmm. नर hmm. मनुष्याणां hmm. सेवा, सेवा. नारायण ईश्वरप्राप्ति विश्वप्राप्तिः hmm. hmm. hmm. उत्तमम् उत्तमम् अस्ति उत्तमम् उत्तम. hmm. अग्रिमे शिवत्समोदये वदतु एकमेकं एकम वाक्यं वाक्यद्वयं वदतु सर्वे शिवत्समहोदय hmm. भगिनि तात्प तात्पर्यः प्रामा प्रामाणिकता एण्ड् जनसेवा निस्वार्थजनसेवा एवं भगवन्त भगवन्तम् अतिप्रियः अस्ति ईश्वराय hmm, hmm, hmm. रोचते इति भगवते रोचते किम सेवा प्रामाणिकतया निरलसतया निरन्तरप्रकारेण एव सम्यक् सत्यमस्ति अनन्तरं राधा भगिनी वदति वा एषा कथा जनसेवा प्रति अस्ति भगवन्तः ये निःस्वार्थ सेवा करोति ते mm -hmm. तस्य प्रीतिः अस्ति तस्य प्रिया अस्ति सम्यक् सम्यक् भगवन्तं भगव... भगवन्तं निस्वार्थबुद्ध mm. सेवन्ति सेवन्ते इति तत्र आत्मनेपद सेवन्ते ते जनाः ते जनाः भगवतप्रियाः जनाः एवम् उत्तमं सत्य धन्यवाद श्यामलाभगिनी ah. ah. दन्य। वदति वा श्यामलाभगिनी भारतमहोदय एकमेकम् एक अनिताभगिनी आगुस्ट् महोदय वदतु श्यामलाभगिनी वदति वा इच्छति वा कथा वदतु वदतु तथा वदति सर, सर्वत्र अस्ति जनानाम अस्ति यदि ईश्वरस्य प्रार्थना ईश्वरम् प्रार्थना कर्तुम् इच, इच्छति mm -hmm. तदा तदा आ, सर्वे जनानां प्रा जनानां प्रार्थना कर्तुम् इस् the way to god is through humans satyam satyam ida nim sanskrita bhashayamade tu antimam vakyam asma janami ah na bhagavatah prapte he marga bhagavatah prapte marga katham way to god it you are saying hello bhagavata bhagavata prapte he marga इदानीं वदतु जनैः जनसेवेषु जनसे न जनसेवायाम् एव वर्तते जनसेवायाम् अत्र सप्त जनसेवायाम् एव वर्तते सेङ्क्यू उत्तममस्ति उत्तमः विचारः भारतमहोदय अवस्टमहोदय वक्तुमिच्छति वा आं हा वदतु बोधः ईश्वर ईश्वर जनसेवा बहुत, बहु सत्यं सत्यं सत्यम् ईश्वराय जनसेवा रोचते इति ईश्वराय जनसेवा रोचते जनसेवा एव प्रिया इति सत्यं नमस्ते नमस्त। भगिनी अहमपि एकं वाक्यं वदामि हा निश्चयेन निश्चयेन भवती वदतु अहमपि हा वदतु वदतु वीणा भगिनी अनन्तरं श्यामला भगिनी गोष्ठमहोदय यदा जनसेवा भवति तदा जनार्दनस्य सेवा अपि जनसेवा इति जनार्दनस्य सेवा एव उत्तमम् उत्तमम् उत्तमं धन्यवादः भगिनि धन्यवादः श्यामला भगिनी वक्तुमिच्छति खलु श्यामला भगिनी सा उक्तवती अहमपि वदामि महोदय भवान् श्यामला भगि हा वदतु सम्यक् नास्ति भवान् तः सर्वे जनाः सा प्रा भवान्तः प्राप्तवती सद्विषयाः एव सज्जनाः स्मरति अतः भगवान्तः नमस्करोति तत्र किम् इच्छति भवती किं वक्तुम् इच्छति भवती सर्वे जनाः भक्ताः एव Uh, uh -huh. परन्तु एक एक एकवनुषाः स्मरति लघु लघु अस्ति की वक्तुं किम् इच्छति किञ्चित् आङ्ग्लभाषायां वदतु किम् इच्छति Uh, everybody, uh, everybody are uh, praying to God and mm -hmm. they are trying to get what they want, wishes, mm -hmm. they pray uh, with the, in the good people, in the form of good people. Manusha ha eva mahavan indishmanati. It took the tatra nareshu eva narayana vartati. इति नारायणः कीदृशः ये ये जनाः अन्येषां कृते परोपकारं कुर्वन्ति ये जनाः सेवाकार्यं कुर्वन्ति तेषु एव नारायणः अस्ति ईश्वरः तत्र एव विद्यते एवम् अस्तु अस्तु अस्तु सत्यम् हा अन्तिमर्थः तत्र अगस्ट् महोदय भवान् इच्छति वा आहा। आहा। वदतु आहा। आहा। हा वदतु संस्कृतभाक्यं प्रयत्नं करोमि निश्चयेन करोतु सज्जनाः प्रार्थना न करोति परन्तु सः कल्यानं क्रीत् कल्याणक्रीत् भवति सः पर, सः परोपकारः कर्मयोगेन कर्मयोगेन उत्तमं बहु तत उत्तमं तत् श्रीकृष्ण भगवान् भगवद्गीतायां तदेव उक्तवान् आसीत् खलु उत्तमं महोदय कर्मयोगः कर्मयोग कर्मयोगेन एव भगवत्प्राप्ति भवति इति अस्ति तत्र कर्मयोग ज्ञानयोगभक्तियोग त्रयः योगः भगवद्गीतायां वर्णितम् अस्ति तत्र तस्य विषये कृष्णेन भगवता परन्तु तत्र कर्मयोग तस्य महती का इति कथायां दृश्यते उत्तमं महोदय उत्तमं सर्वेषाम् अभिप्रायाः हा उत्तमाः एव अस्तु अस्तु इदानीं स्थगयामः वा शान्तिमन्त्रम् वदति वा विना भगिनी भवती वक्तुम् शक्नोति वा शान्तिमन्त्रम् हा भगिनी अवश्यम् वद ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदक्ष्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ओ शान्तिश्शान्तिशान्तिः हरिः ओम् श्रीकृष्णाय नमः धन्यवादाः